नारदपुराणम् उत्तरार्थम् अध्यायम् फिफ्टि वन् वसुरुवाच अधान्यदे प्रवक्ष्यामि गङ्गामाहात्म्यमुत्तमम् वाराणसी स्थितम् भद्रे भुक्तिमुक्तिफलप्रतम् अविमुक्ते कृतम् यत्तु तदेवाक्षयदाम् व्रजेद अविमुक्तगधकच्चिन्नरगम् नैति किल्बिषी अविमुक्तकृतं यत्तु पापं वज्रं भवेच्छुभे त्रैलोक्ये यानि तीर्थानि मोक्षदानि च कृष्णशः सेवन्ते सतदं गङ्गा काश्यामुत्तरवाहिनी दशाश्वमेधे यस्नात्वा दृष्ट्वा विश्वेश्वरं शिवम् सद्यो निष्पातपो भूत्वा मुच्यते भवबन्धनाद् गङ्गा हि सर्वदः पुण्यां ब्रह्महत्यापहारिणी वाराणस्याविशेषेण यत्र चोत्तरवाहिनी वरणायास्तथास्याश्च जाहनव्यासंगमे नरः स्नानमात्रेण सर्वेभ्यः पादेभ्य प्र मुच्य से कश्यारवा गंगायां का माखे च मुच्य महापापादिपादकोकु तीर्थ यानी ख्या चर्वाण्येता सुगे काश्या माखनवी नित्यम् पर्वसु सर्वेषु पुण्यैश्चायतनैः सह उत्तराभिमुखीम् गङ्गाम् काश्या मायान्ति चान्वहम् महापादकदोषादिदुष्टानां स्पर्शनोद्भवम् व्यपोषितुम् स्वपापम् च जन्तुपापविमुक्तये जन्मान्तरशदेनापि सत्कर्म निरतस्य च अन्यत्र सुधिया भद्रे मोक्षो लभ्य येके न वा ये त्वत्र गङ्गायां मरणेन च मोक्षस्तु लभ्यदे काश्यां नरेणा वलितात्मना दोनाम दो नामह्रदस्तत्रैव सुन्दरि धर्म एव स्वरूपेण महापादकनाशनः धूली च दूधपापास्था सर्वतीर्थमयी शुभा हरेन्महापापसङ्घान् कूलजानिव पादपान् किरणा दोधपापा च पुण्यतोया सरस्वती गङ्गाजयमुना चैव पञ्चनद्यप्रकीर्तिताः अधः पञ्चनदं नाम तीर्थं त्रैलोक्य विश्रुतं तदा तत्राप्लुतो न गृह्णीय देहितां पाञ्चभौतिकीम् अस्मिन् पञ्च नदीनां तु सङ्गमे कौकफेदने स्नानमात्रान्नरो यादि भित्त्वा ब्रह्माण्डमण्डपम् प्रयागे माघमासेतु सम्यक् स्नानस्य यद्फलम् तद्फलम् स्याद्दिनैकेन काश्याम् पञ्चनदे ध्रुवम् स्नात्वा पञ्चनदे तीर्थे कृत्वा च पितृतर्पणम् विष्णुमाधवमभ्यर्थ्य नभूयो भूयो जन्मभाग्भवेद यावत्सङ्ख्या स्थिला दत्ताः पितृभ्यो जलतर्पणे पुण्ये पञ्चनदे तीर्थे तृप्तिः स्यात् तावदाब्देकी श्रद्धया ह्यै श्राद्धं तीर्थे पञ्चनदे शुभे तेषां पिता महामुक्ता नाना यो निगदा अपि यमलोके पितृगणैर् यम् परिगीयते महिमानम् पञ्चनदम् दृष्ट्वा श्राद्धविधानदः अस्माकमपि वंश्योऽत्र कश्चिच्छा कच्चिच्छ्राद्धम् करिष्यति काश्याम् पञ्चनदम् प्राप्य येन मुच्यामहे वयम् तत्र पञ्चनदे तीर्थे वसु कल्पक्षयेऽपि न भवेत्तस्य पुण्यस्य संक्षयः वन्ध्यापि वर्षपर्यन्तम् स्नात्वा पञ्चनदे हृदे समर्थ्यमङ्गलाम् गौरीम् पुत्रम् जनयदिध्रुवम् जलैः पाञ्चनदैपुण्याैर्वाससा परिशोधितैः महाबलमवाप्नो दिस्नापयित्वे स दिक्षुदां पञ्चामृतानां कलशैरष्टोत्तरशतोन्मितैः तुलितोऽधिकदां प्राप्तो विन्दुपाञ्चनदस्तु सः पञ्चकूर्चेन पीदेन साशुद्धिश्रद्धया प्राश्यबिन्दुं पञ्चनदाम्भसाम् भवेदधह्रदस्नानाद्राजसूयाश्वमेधयोः यद्बलं तच्छतगुणं स्मृधम् पञ्चनदाम्बुना राजसूयाश्वमेधौ च भवेदाम् स्वर्गना साधने आब्रह्मपट्टिका द्वन्द्वान्मुक्लिपञ्चनदाम् बुभिः स्वर्गनद्यभिषेकोऽपि भी न तथा समदः सदाम् अभिषेकपाञ्चनदो यथा नन्योवरप्रदः सदम् समास्तपस्तप्त्वा कृते यत्प्राप्यते फलम् तत्कार्तिके पञ्चेन्द्रे सकृत्स्नानेन लभ्यते इष्ठापूर्तेषु धर्मेषु यावज्जन्मकृतेषु यद् अन्यत्र स्यात्फलं तस्याधिकं पञ्चनदाम्बुभिः न धूद पापसदृशं तीर्थं क्वापि महीतले यदेकस्नानदो नश्येदकं जन्मत्रयार्जितम् कृते धर्मं नदं नाम त्रयदायां धूतपादकं द्वापरे बिन्दुतीर्थं च कलौ पञ्चनदं स्मृतं बिन्दुतीर्थे नरो दत्वा काञ्चनं कृष्ण कलोन्मिदं न दरिद्रो भवेत् क्वापि न सुखेन वियुज्यते गोभूतिल हिरण्याश्व ोन्नस्तानभूषणम् यत्किञ्चिद्बिन्दुतीर्थेऽत्र दत्त्वा क्षयमवाप्नुयाद ये कामप्याहुदिम् कृत्वा समेध्येऽग्नौ विधानदः पुण्यधर्म नदीतीर्थे कोटिकोमफलम् लभेद न पञ्च नदतीर्थस्य महिमानमनन्तकम् कोऽपि वर्णयितुं शाकुतश्च दुर्वर्गशुभौ कसः इति ते कथितं भद्रे काशीमाहात्म्यमुत्तमं सुखदं मोक्षदं नृणां महापादकनाशनं ब्रह्मघ्नो मधुखस्वर्णस्तेयी च अविमुक्तस्य माहात्म्यश्रवणात् याद, ब्राह्मण वेद विद्वां सिया क्षत्रि विजयीणे वैश्योधनपतिश्रो विष्णु भक्त श्रवणादस भूया पठन तो सर्वजु युम तर्वती तत्सर्वम् समवाप्नोति पठनाश्रवणादपि विद्यार्थी लभते विद्यां धनार्थी लभते धनम् भार्यार्थी लभते भार्याम् सुतार्थी पुत्रमाप्नुयाद अविमुक्तस्य माहात्म्यम् मया ते परिकीर्तितम् विष्णुभक्ताय दातव्यम् शिव भक्तिरताय सूर्यहेरम्बसे विने गुरुशुश्रूषवे दत्वा तीर्थास्नानफलं लभेद शठाय निन्दकायापि गो विप्रसुरविद्विषे गुरुद्रुगे सूयकाय दत्त्वा मृत्युमवाप्नुयाद यदि श्रीमृतनारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे काशी माहात्म्ये एकपञ्चाशत्तमोऽध्यायः ओम्